नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलं भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः अहस्सुविहरानेन यथा कामम् मनो जा अयं त्वा नयितव्यस्ते प्राक्संध्यातो विमोक्तव्यो रक्षितव्यश्च नित्यशः एवं रमस्वभीमेना यावद्गर्भस्य वेदनं एशते समयो भद्रे शुश्रूष्यश्च प्रमत्तया नित्यानुकूलया भूत्वा कर्तव्यं शोभनं त्वया युधिषिण मुता कुके धीरोताजुना यम्याुधिष्ठिरे या हिडिबा हिडिम्बा भीमगामिनी, शालिहोत्र सरोम्यं आसेदुस्ते जलान तथेति प्रतिज्ञाया, हिडिम्बा तदा वनस्पतितलं गत्वा परिमृज्य गृहं यथा पाण्डवानां च वासं सा कृत्वा पर्णमयं तथा आत्मनश्च तथा कुन्त्या एकोद्देशे चकारसा पाण्डवास्तु ततस्नात्वा शुद्धाः सन्ध्यामुपास्य च त्रिषिता क्षुत्पिपासार्ता जलमात्रेण वर्तयन् शालिहोत्रस्ततो ज्ञात्वा क्षुधार्तान् पाण्डवांस्तदा मनसा चिन्तयामासा पानीयं ततस्ते पाण्डवाः सर्वे विश्रान्ताः प्रथया सह यथा जतुगृहे वृत्तं राक्षसेन कृतं च यत् कृत्वा कथा बहुविधाः कथान्ते पाण्डुनन्दनं वाक्यं भीमसेन मथा ब्रवीत् कुन्त्युवाचा यथा पाण्डुस्तथा मान्यस्तव ज्येष्ठो युधिष्ठिरः अहं धर्मविधानेन मान्या गुरुतरा तव तस्मात् पाण्डुहितार्थं मे युवराजहितं दुष्कृतस्य प्रतीकारं न पश्यामि तस्मात् कतिपयाहेन योगक्षेमं भविष्यति क्षेमं दुर्गमिमं वासं वसिष्यामो यथा सुखम् इदमद्य महद्दुःखं धर्मकृच्छ्रं वृकोदरा दृष्ट्वैव त्वा अनङ्गाभिप्रचोदिता युधिष्ठिरं च मां चैव वरयामास धर्मतः धर्मार्थं देहिपुत्रं त्वं स करिष्यति प्रतिवाक्यं तु नेच्छामि ह्यावाभ्यां वचनं कुरु वैशम्पायन उवाच तथेति तत्प्रतिज्ञाय भीमसेनोब्रवीदिदं शृणुराक्षसि सत्येन समयं तेवदाम्यहं। वदाम्यहम् यावत्कालेन भवति पुत्रस्योत्पादनं शुभे तावत्कालं गमिष्यामि त्वया तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी भीमसेनमुपादाय सोऽर्ध्वमाचक्रमे ततः